स युद्धकुशलः पार्थो बाहुवीर्येण चातुलः अहनत्कुञ्जरानीकम् गदया कालरूपधृत् भीमसेनस्य गदया भिन्नमस्तकपिण्डकाः पतन्ति द्विरदा भूमौ वज्रघातादिवाचलाः गजानश्वानरथांश्चैव पातयामास पाण्डवः पदातींश्च रथांश्चैव न्यवधीदर्चुनाग्रजः गोपाल इव दण्डेन यथा पशुगणान्मने चालयन् भारद्वाज प्रियं कर्तुमुद्यतः फालुनस्तदा पार्शतं शरजालेन क्षिपन्नागात्स पाण्डवः हयौघांश्च रथौघांश्च गजौघांश्च समन्ततः पातयन् समरे राजन् युगान्ताग्निरिवज्ज्वलन् ततस्ते हन्यमाना वै पाञ्चालाः सृञ्जयास्तथा मुखैकृत्वा समयुध्यन्तपाण्डवम् तद्युद्धमभवद्घोरम् सुमहाद्भुतदर्शनम् सिंहनादस्वनम् श्रुत्वा नामृष्यत्पाकशासनिः ततः किरीटी सहसा पाञ्चालान् समरे द्रवत् छादयन्निषु जालेन महतामोहयन्निवा शीघ्रमभ्यस्यतो बाणान् सन्दधानस्य चानिशं नान्तरं ददृशे किञ्चित् कौन्ते यस्य यशस्विनः न ना दिशो नान्तरिक्षं च तदा नैव च मेदिनी अदृश्यत महाराज तत्र